गरुडपुराणम् आचारकाण्डम् अध्यायम् त्व हरिरुवाच कृत्वेहामुद्रसंस्थानम् हामुत्रसंस्थानं सर्गम् तु मानसम् अधा सृजत्प्रजाकर्दृन्भान सांस्तनयान् प्रभुः धर्मम् रुद्रम् मनुम् च सनातनम् भृगुम् सनत्कुमारम् च रुचिं श्रद्धां तथैव च मरीचि मत्र्यङ्गिरः सौ पुलस्त्यम् पुलहम् क्रतुम् वसिष्ठम् नारतं चैव पितृन् बर्हिषतस्तथा अग्निष्वात्तांश्च कव्यादानाज्यपांश्च सुकालिनः उपभूतांस्तथा दिव्याम् स्त्रींश्च मूर्तिविवर्जितान् चतुरो मूर्तियुक्तांश्च अङ्गुष्टाद्दक्षमीश्वरम् वामाङ्गुष्टा तस्य भार्यामसृजपद्मसम्भवः तस्याम् तु जनयाम स दक्षो दत्तवान् रुद्रपुत्रा बभूवुर्हि आसङ्ख्यादा महाबलाः भृगवेशददौख्यादिं रूपेणा प्रतिमां शुभां भृगोर्धा विधातारौ जनयामास तस्यां वै जनयामास बलोन्मादौ हरिस्वयम् आयतिर्नियदिश्चैव मनोकन्ये महात्मनः धादाविधात्रोऽस्ते भार्ये तयोर्जातौ सुधावुभौ प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुकः पत्नीमरीजे सम्भुधि पौर्णमासमसूयद विरजः सर्वगश्चैव तस्य पुत्रौ महात्मनः समृद्धे शाङ्गिरसपुत्रा प्रसूधा कन्यतास्तथा सिनी बालीकुहुःश्चैव राधा चानुमतिस्तथा अनसूयाततो वात्रेर्जज्ञे पुत्रा न दत्तात्रेयं च योगिनम् प्रीत्याम् पुलश्च भार्यायाम् दत्तो लिस्तत्सुतो भवद कर्मशश्चार्धवीरश्च सहिष्णुश्च सुधत्रयम् क्षमादु सुषुवे भार्या पुरहस्य प्रजापदेः क्रतोश्च सुमधिर्भार्या बालहिल्यानसूयत षष्ठेर्याणि सहस्राणि ऋषीणामूर्ध्वरेदसम् अङ्गुष्टपर्वमात्राणाम् ज्वलद्भास्करवर्चः सन् ऊर्जायाम् तु वसिष्ठस्य सप्ताजायन्तवै सुधाः रजोगात्रोर्धबाहुश्च शरणश्चानखस्तद्धा सुतप शुक्र सर्वे सप्तर्षयो मदाः स्वाहाम् प्रादात्सदक्षोऽपि सशरीराय वह्नयेत् पावकम्पवमानम् च शुचिम् चापि जलाशिनः पितृभ्यश्च स्वधा जज्ञे मेनाम् वैतरणीम् तथा ते उभे ब्रह्मवादिन्यौ मेनायान्तु हिमाचलः मैनाकम् जनयामास गौरीम् पूर्वम् तु या तदो ब्रह्मात्मा सद् सम्भूतम् स्वायम्भुवम् प्रभुः आत्मानमेव कृतवान् प्रजापाल्यम् मनुंहर सदरूपाम् च ताम् नारीम् तपो निहदकल्मषाम् स्वायम्भुवो मनुर्देवपत्नीत्वे जगृहे विभुः तस्मात् पुरुषाद्देवी चदरूपा <mí> व्यजायद प्रियवदो प्रियव्रतोत्तानपादौ प्रसूत्याहूदिसंनिदे देवहूदिम् अनुस्तासु आहूदिम् रुजये ददौ प्रसूदिं चैव दक्षायदवहूदिं च कर्दमे रुचेर्यज्ञो दक्षिणाभूदक्षिणायाम् च यज्ञतः अभवन्द्वादशसुधायामो नाम महाबलाः चतुर्विंशतिकन्याश्च सृष्टवान् दक्ष उत्तमाः श्रद्धा सला धृतितुष्टिपुष्टिर्मेधा क्रिया तथा बुद्धिर्लज्जा वपुः शान्तिर्वृद्धिकीर्तिस्त्रयोदशि पत्न्यार्थम् प्रविजग्राहधर्मो दाक्षायणी प्रभुः क्षदि सत्यथ सम्भूदि स्मृतिप्रीतिः क्षमा तथा सन्नधिष्ठानसूया च ऊर्जा स्वाहा स्वथा तथा भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः पुलस्य पुलहश्चैव क्रदुश्चर्षिवरस्तथा अत्रैर्वसिष्ठो वह्निश्च पितरश्च यथा क्रमम् चात्याद्या जगृहुकन्यामुनयो मुनिसत्तमाः श्रद्धा कामम् चलादर्पम् नियमम् धृतिरात्मजम् सन्तोषम् च तथा तुष्टिर्लोभम् पुष्टिरसूयत मेधाश्रुतम् क्रियादण्डम् लयम् विनयमेव च बोधम् बुद्धिस्तदा लज्जा विनयम् वपुरात्मजम् व्यवसायम् प्रजज्ञे वैक्षेमम् शान्तिरसूयत सुखम् वृद्धिर्यशकीर्तिर् इत्येते धर्मसूनवः कामस्य चरदिर्भाज तत्पुत्रो हर्ष उच्यते यीदेकदाचिद्यज्ञेन हयमेधेन दक्षतः तस्य जामातर सर्वे यज्ञम् जग्मुर्निमन्त्रिताः भार्यभिस्सहिता सर्वे रुद्रम् देवीम् सदीम् विना अनाहूता सदी प्राप्ता दक्षेणैवावमानिता त्यक्ता देहम् पुनर्जादा मेनायां तु हिमालयाद शम्भो भार्या भवद्गौरी तस्याम् यज्ञे विनायकः कुमारश्चैव भृङ्गिषक्रुद्धो रुद्रप्रतापवान् विध्वंस्य यज्ञं दक्षं तु तं शशाप सम्भूदो मनुष्यस्त्वं भविष्यसि इति श्रीगारुडे महापुराणे आचारकाण्डे प्रजा कर्त्रादिसृष्टिर्नामपञ्चमोऽध्यायः ओम्